तृतीयध्याय आध्यात्मणता वर्षद्व पठन पूर्वोपनाल नरेन्द्र कृतवान्पाद्याल तेन विद्यालये चेतिहात्वशास्त्रमत दिव्यशिक्षणमेतेषां विषये च समाचरन् चर्चा भासणयोर्नेता सोभवत्पठनालये कुरुते स्म यदा शिक्षां पर्वविद्यालये तदा श्रीरामकृष्णदेवं स प्रथमत्वेन दृष्टवान् विलियं फेष्टेत्यभिद्दयां दया ज्ञाताद् ज्ञातादध्यापकान् नरेन् कृतमाने कदा वरगे स्वस्य भावी गुरुं प्रति प्रतिवेशी गृहं यस्याद्गुरुदेव समागत कर्तनालापनं कर्तुं नरेण तत्र निमञ्चितः निमन्त्रितः घटने सा नरेन्द्रस्य जीवे जीवने प्रमुखा भवत् तदीयाध्यात्मिक सुक्यम् अनया तु प्राध्यापक उपर्युक्त उक्तवान् च नरेन्द्र ते धिशक्तिसहितोऽस्त्येव नरेन्द्रपरमार्थतः गतवानस्मि भुवने स्थलानि विविधान्यहं नैकविद्यार्थिनस्तत्त्वशास्त्रस्याहं ददर्श च नरेन्द्रसमिधिमतं बालं नाहं व्यलोकयम् स्थापये स्वस्य धामासौ स्वकीये जीवने दृढम् नरेन्द्रचिन्ता सरणिर्मौलिकी सर्वदा भवतु विचारेण विना तेन किमपि स्वकृतं नहि संसारीकसुकेतेन कापि वाञ्छा न दर्शिता सदैवादरसवाधिः स सत्यान्वेषणतत्परः व्यक्तित्वस्य नरेन्द्रस्य भिन्नभावोऽप्यवर्तत आसीत् स तथा नर्म प्रियो वृतम् करोति स्म समुल्लासयात्रां चापि नेता नरेनासीत् सदापि रूपं रूपगर्विणं दम्भिनं तथा नरेन्द्रो निश्चयेनैव न कदाप्यं भनन्दयत् सहाय्यं दातुर्मार्हेमर्हेभ्यः सज्ज आसीषु सर्वदा तदर्थं युक्तमार्गं स आविष्कर्या सपाटवं प्रयोज्येषं च परीक्षार्थम् अव आवश्यकं ध्यानगानादिकार्येषु प्राय स निरतोऽभवत् माया परीक्षाया पर्वेद्युश्च नरेणो सर्वं विस्मृत्य सङ्गीते निमग्नसन्नवस्थितः अस्मार्यत्तस्य मित्रं परीक्षाविषये च तं श्रुण्वन्नपि सहृद्वाक्यं पुनर्गानं च आलपत् अनन्तरदिने प्रातः परीक्षामलिकस्य च असंशयं परीक्षायां विजयं प्राप्तवानपि सङ्गीते निपुणं शोभूत्तस्य नादो मनोहरः श्रोतार सकलास्तस्य गानेनानन्दस्तु तुन्दिला कण्ठगीतं तथा गानं वाद्योत्पन्नं पपाठस बहूनि स्तोत्रगानानि लिलेख च अशिक्षयन्नरेन्द्रं च कश्चिदस्लामिको गुरुः उर्दू हिन्द्यादिभाषासु स्तोत्रं गानानि कानिचे कुरुते स्म स नृत्यं च सला गीतं तदीयसुन्दरं गात्रम् अनुकूलं च तत्कृते आङ्ग्लभाषाप्रचारेण तथेवाङ्गुलशासनान् पाश्चात्यसंस्कृतिश्चापि भारते प्रतिबिम्बिता परम्परागतचिन्ता तथैवाधुनिकाशयाः एतेषां युद्धमुद्भूतं युवहिन्दुहृदन्तरे नैके निरर्थकाचाराः क्रियन्ते स्म पुरोहितये विस्मृतोपनिषत्तत्वसंहिता तैरशेषतः अस्यां परिस्थितौ ब्रह्मसमाजस्योद्भवोद्भवत् तस्य चिन्ता गतिर्नूनम् अत्यन्तं युक्त्यधिष्ठितम् युवानो वङ्गदेशस्य समाकृष्टा एतेन च तदीयाङ्गं नरेन्द्रो भूयथा तस्य सृहृज्जनाः आध्यात्मिकस्पृहां तीव्रां नरेन्द्रस्य हृदिस्थिताम् परिपूरयितुं ब्रह्म समाजो न क्षमोऽभवत् एतन्मध्ये नरेन्द्रस्य जनकः कृतवानपि युवकस्य स्वपुत्रस्य विवाहार्थं परिश्रमं सम्मतं न कल्पितं येन सर्वदा एकैकवनिता एक माता चेति यथार्थतः बाल्यादेव नरेन्द्रस्य चित्ते नूनं अवर्तत विशुद्धिर्यां तु तन्माता परिपोषितं वद्यपि स्वयं स संकल्पं सङ्कल्पम् अकरोत् तथा मनसा कर्मणा वाच नैर्मल्यं सरप्स्य एतेनाध्यात्मिको भावत्तच्चित्ते पर्यवर्धत बलं माणिकं तद्वन् दैहिकं चापि लब्धवान् दीनानि कानिचिद्ब्राह्मसमाजस्य प्रवर्तते भागभाकशोभवन् किन्तु सन्तृप्तो न हि तेन स स्तोत्रैश्च प्रार्थनाभिश्च किञ्चित्कालं समुदितः अध्यात्मानुभवं तस्मै दातुं तत्सर्वम् अक्षमम् उपदेशं तस्य लब्धुं येन् वीक्षित ईश्वरः नरेन्द्र इष्टवान् यस्मात् सोऽपि देवं विलोकयेन् अतो देवेंद्र नाथ देवेन्द्रनाथठाकुरम् इक्षितुं यस्तु ब्रह्मसमाजस्य नेता तस्य मे भवतु ददर्श किं भवान् देवं पृष्टवान् ठाकुरं नरेन् श्रुत्वेदं ठाकुरो जात किञ्चित् सम्भ्रान्तमानसः तवस्तो योगिनो नेत्रे मम त्वया परं ध्यानं खलु विधातव्यं ठाकुरः प्रत्यभाषत एतच्छ्रुत्वा नरेन्द्रस्तु भग्नासो नितनाम् मुमूत् अन्येभ्यो धर्मनेतृभ्यो न युक्तमुत्तरम् श्रीरामकृष्णदेवं स तदानीं स्मृतवानपे लब्धं तद्दर्शनं पूर्वं नरेन्द्रेण सुहृद्गृहे कश्चिश्चिश्यो गुरोराशीन्नरेन्द्रस्यापि बान्धवः आध्यात्मिकमनोभावं नरेन्द्रस्य विभेदस आध्यात्मिकत्वं ध्यस्तुं यदि त्वमभिञ्छसि श्रीरामकृष्णस्मिन् इच्छस्व गत्वा त्वं दक्षिणेश्वरम् इत्येवं कथितं तस्य बन्धुना तदनन्तरं मित्रद्वयेन सहितं सयातो दक्षिणेश्वरम्